हरि ओं श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमदध्यात्मनारामायणे युद्धकाण्डे षोडश सर्ग श्रीमहादेव उवाच रामाभिजिते राजेन्द्रे सर्वलोक सुखावहे वसुधा सत्यसम्पन्ना फलवन्तो महीरुह गन्धयेनानि पुष्पाणि गन्धवन्ति चकाशिरे सहस्रशतमश्वानां धेनूनां च गवां तथा च दोशतवृषान् पूर्वं द्वियेभ्यो रघुनन्दनः त्रिंशत्कोटि सुवर्णस्य ब्राह्मणेभ्यो दधो पुनः वस्त्राभर्णरत्नानि ब्राह्मणेभ्यो मुदा तथा सूर्यकान्ति समप्रख्याम् सर्वरत्नमयीं स्रजं सुग्रीवाय ददो प्रीत्या राघवो भक्तवत्सलः अङ्गदाय ददो दिव्ये व्यङ्गदे रघुनन्दनः चन्द्रकोटिप्रतिकाशम् मणिरत्न विभूषितम् सीतायै प्रदोहारम् प्रीत्या रघुकुलोत्तमः अवमुच्चात् मनकण्ठात् हारं जनकनन्दिनी अवैक्षत हरिन् सर्वान् भर्तारं च रामस्तामाह वैदेहिम् इङ्गितज्ञो विलोकयन् वैदेहीयस्य तुष्टासि देयी तस्मै वानने हनुमते ददौ हारम् पश्यतु राघवस्य च तेन हारेण शुशुभि मारुती गौरवेण च रामोऽपि मारुतिम् दृष्ट्वा कृताञ्जलिमुपस्थितम् भक्त्याय परमय तुष्ट इदम् वचनमब्रवीत् हनुमन्ते प्रसन्नोऽस्मि परं वराय काङ्क्षितं दास्यामि देवैरपि यत् दुर्लभम् भुवनत्रये हनुमनपि सम्प्राहे न त्वा रामं प्रलुष्टधि तन्नाम राम न तृप्यति मनोम अथ सततम् भूतले, नाम, लोके स्मर साूतलेवना कलेवरम मम तेष राज मे भी काम सी तम प्रह मुक्त यहां कर्पयुजे नात्र संशय तम मह जानक प्रीता यत्र कुत्रापि मारुते स्थितं तां मनुयायि सन्ति प्रयोगाः सर्वे मम अज्ञया इत्युक्त्वा मारुते ताभ्याम् ईश्वराभ्याम् प्रवृष्ट आनन्दाशु परिताक्षौ भूयो भूयः प्रणम्यत वृक्षाद्ययो तपस्तप्तुम् हिमवन्तम् महामतिः ततो गृहम् समासाद्य राम प्राञ्जलिनम् सखे गच्छे पुरं रम्यं, शृङ्गभेरं मनोत्तमम् मामेव चिन्तयन् नित्यं भङ्क्व भोगान् निजार्जिताम् अन्ते ममैव सारूप्यम् प्राप्तसि त्वं न संशय इत्युक्त्वा प्रददौ तस्मै दिव्यानि आभरणानि च राज्यं च विपुलं दत्त्वा विज्ञानं च तदौ विभू रामेणालिङ्गितो रुष्टो ययोस्व भवनं गुह ये चान्ये वानराश्रेष्ठा अयोध्यान्तमपागतः अमूल्या भरणे वस्त्रे पूजयामास राघवः प्रमुखा सर्वे वानरासविभीषणः यथार्हम् पूजितास्ते न रामेण परमात्मनः प्रवृष्ट मनस्सर्वे जग्मुरेव यथागतम् सुग्रेव प्रमुखाः सर्वे किष्किन्धाम् प्रयुर्मुदा विभीषण तु सम्प्राप्य राज्यं नियतकण्डकम् रामेण पूजितप्रीत्या ययो लङ्कामनिन्दितः राघवो राजमखिलम् शशा सारकिलवत्तलः अनिच्छन्नपि रामेण युवराज्ये विषेचितः लक्ष्मणः परया भक्त्या रामसेवा परो भवेत् रामस्तु परमात्मापि कर्माध्यक्षोऽपि निर्मलः कुर्तुत्वादिविहीनोऽपि निर्विकारोऽपि सर्वदा स्वानन्देनापि तुष्टः सन् लोकानामुपदेश करोत् अश्वमेधाधियज्ञश्च सर्वैः विपुलदक्षिणैः अयजत् परमानन्दो मानुषम् वपुराश्रितः न पर्य देवन् विधवा न च व्यालयकृतम् भयं न व्याधिजम् भयं चासीत् रामे राजम् प्रजासति लोके दस्युभयं नासीत् अनठो नास्ति कश्चन वृद्धेषु सत्सु बालानाम् नासीन् मृत्युभयम् तथा रामपूजा परा सर्वे सर्वे राघवचिन्तकः वर्षो जलदास्तोऽयम् यथा कालम् यथा रुचिः प्रजास्वधर्म निरता वर्णाश्व मुणान्वितः औरसाय निवरामोऽपि जुगोपितृवत् प्रजः सर्वरक्षणसंयुक्त सर्वधर्मपरायणः दश वर्षसहस्राणि रामो राज्यम् अपात इदं रहस्यं धन धान्य रुद्धिमयत् दीर्घायुरारोग्यकरं तु पुण्यदम् पवित्रमाध्यात्मिकसन्नितम्बुर रामायणं भाषितमादि शम्भुना कृणोति भक्त्या मनुज समाहितो भक्त्या पठेद्वा परितुष्टमानस सर्वाः समाप्नोति मनोगताशिषो विमुच्यते भी पाचककोटि भीक्षणात् रामाभिजयकं भी प्रयतये शृणोति यो धनाभिलाषि लभते मह धनं पुत्राभिलाषि सुतमार्य सम्मतम् प्राप्नोति रामायणमादितपठन् शृणोति अध्यात्मिक रामसंहिताम् प्राप्नोति राजा भूमृद्दसम्पदम् शत्रुन् विजित्या ुखो विजयी भवेन् नृप श्रियोऽोऽपि शृण्मञ्चधिरामधुवितां भवन्ति ता देविसुताश्च पूजिता वन्ध्यापि पुत्रं लभते सुरूपिणम् कथामिमां भक्तियुता शृणोति या श्रद्धान्वितो य शृणुयात् पठे नरो विजित्य कोपं च तथा विमचर दुर्गाणि सर्वाणि विजित्य निर्वयो भवे सुखी राघव भक्तिसंयुत सुरासमस्तापि यान्ति ुष्टा विघ्ना समस्तापि यान्ति समस्ता शृण्वताम् अध्यात्मा रामायणमादितरुणाम् भवन्ति सर्वापि सम्पदपरा रजस्वलाभा यदि राम तत्परा शृणोसि रामायण पुत्रं प्रसूते वृषभं चिरायुषम् पतिव्रता लोकसुपूजिता भवेत् पूजयित्वा तु ये भक्त्या नमस्कुर्वन्ति नित्यश हे सर्वे पापैर्विमुक्ता विष्णुर्यान्ति परम् बलम् अध्यात्मरामः चरितं कृष्णं शृण्वन्ति भक्तितः पठन्ति वा स्वयं वक्त्रात् तेषाम् रामः प्रसीदति राम एव परम् तस्मिन् तुष्टखिलात्मदि धर्मासकाम मोक्षाणाम् यद्यदिच्छति तद्भवेत् श्रोतव्यम् नियमेनैतत् रामायणम् अखण्डितम् आयुष्यम् आरोग्यकरम् कल्पकोट्यः घनाशनम् देवा च सर्वे तुष्यन्ति ग्रहाः सर्वे महर्षयः रामायणस्य श्रवणे तृप्यन्ति पितरस्तथा अध्यात्म रामायणमेतदद्भुतं वैराग्यविज्ञानयुतं पुरातनं पठन्ति शृण्वन्ति लिखन्ति ये नर तेषां भवेस्मिन्न पुनर्भवो भवेत् अलोढ्याखिल वेद राशि मसकृत् यत्तारकं ब्रह्म तेत् रामो विष्णुरहस्य मूर्ति द्वितीयो उद्धृत्याखिलसार सङ्गग्रहनिमिदम् संक्षेप च प्रस्फुटम् श्रीरामस्य प्राह प्रियायै भव इति श्रीमदध्यासरामायणे उमामि श्रुतुम् अधे युद्धकाण्डे षोडश सर्गः समाप्तमिति युद्धकाण्डम् सीतारामचन्द्रार्पणमस्तु